कः भजामि भवभीतिहरं सुरेशं गङ्गाधरं वृषभवाहरमम्बिकेशम् खट्वाङ्गशूलवरदाभय जामि शिव मेकमनर्तमाद्यं वेदान्तवेद्यमनघं पुरुषं महान्तम् नामादिभेद्रहितं षड् भावशून्यम् गिरिजाद् देहं सर्गस्थितिप्रलयकारणमादिदेवं विश्वेश्वरं विजितविश्वमनोवि